गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् थर्टि नैन् वरेण्य उवाच ज्ञाननिष्ठा कर्मनिष्ठाद्वयं प्रोक्तं त्वया विभो अवधार्यवतैकं मे निःश्रेयसकरं नो किं गजानन उवाच अस्राचरे स्थितौ पुक् माया प्रिया सांख्या बुद्धिगेन वैधयोगे नाम अना वैध्य पुषो भवद न सिद्धि व्यागा कर्मण नृप कदाचिदक्रियकोऽपि क्षणं नैवावतिष्ठते अश्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते कर्मकारीन्द्रियग्रामं नियम्यास्ते पुमान् तद्गोचरान् मन्दचित्तो धिकाचारः स भण्यते तद्ग्रामं सं नियम्यादौ मनसा कर्मचारभेद इन्द्रियैकर्मयोगं यो वितृष्णः स परो नृप अकर्मण श्रेष्ठतमं कर्माणि चाकृतं तु वर्ष्मणस्थितिरप्यस्य कर्मणो नैव सेत्स्यति असमर्प्य निबध्यन्ते कर्म तेन जनामयि कुर्वेद सततं कर्मां नाश्योः सङ्गो मदर्पणं मदर्थं यानि कर्माणि तानि बध्नन्ति न सवासनमिदं कर्म बध्नादिदेहिनं बलाद् वर्णान्सृष्ट्वा वदं चाखं सयज्ञां स्थान् पुरा प्रिया यज्ञेन धृत्यतामेष कामधकल्पवृक्षवद सुरांश्चानेन प्रीणध्वं सुरास्ते प्रीणयन्तु नः जध्वं परमं स्थानन्योन्यप्रीणनात् स्थिरम् इष्ठादेवा प्रदास्यन्ति भोगानिष्ठान् सुतर्पिताः तैर्दत्तां स्तान्नरस्तेभ्यो दत्त्वा भुङ्क्रे स तस्करः हुतावशिष्टभोक्तारो मुक्ता स्युः सर्वपादकैः अदन्त्ये नो महापापा आत्महेदोः पचन्ति ये ऊर्जा देवादन्नस्य सम्भवः यज्ञाञ्च देवसम्भूदिस्तदुत्पत्तिश्च वैधतः ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः अतो यत्ने च विश्वस्मिन् स्थितं मां विद्धिभूमिप संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः समुदा प्राणिधि भूपेन्द्रियक्रीडोधमो जनः अन्तरात्मनि यः प्रीत आत्मा रामो नरो यः स्यात् तस्यार्थो नैव विद्यते कार्याकार्यकृतीनां स नैवाप्नोति शुभाशुभे किञ्चिदस्य न साध्यं स्यात् सर्वजन्तुषु सर्वदा अदो अदोसक्तनया भूपकर्तव्यं कर्मजन्तुभिः सक्तो गतिमवाप्नोति मामवाप्नोति तादृशः परमां सिद्धिमापन्नाः पुराराजर्षयो द्विजाः सङ्ग्रहाय हि लोकानां तादृशं कर्मचारभेद् श्रेयानकु कर्म तत्क्यखिलो जन मनु युम सदुसेमे न साध्योस्तिद नाधिप अनालब्धल कैक कर्म तथा न कुर्वेऽहं यदा कर्मस्वतन्त्रो लसभावितः करिष्यन्ति मम ध्यानं सर्वे वर्णामहामदे भविष्यन्ति तदो लोका उच्छिन्ना सम्प्रदायिनः हन्तास्यामस्य लोकस्य विधा सङ्करस्य च कामिनो हि सदा कामैरज्ञानां कर्मकारिणः लोकानां सङ्ग्रहायैतद्विधान् कुर्यादसक्तधीः विभिन्नत्वमधिं जह्यादज्ञानां कर्मचारिणां योगयुक्तसर्वकर्माण्यर्पयेन्मयि कर्म कृत अविद्या गुणसाचिव्यात् कुर्व कर्माण्यतन्त्रितः अहङ्कारान्मन्दबुद्धिरहं कर्तेदि योऽ यस्तु वेत्यात्मनस्तत्त्वं विभागाद्गुणकर्मणोः करणं विषये वृत्तमिति मत्वा न कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः अविश्वज्ञा स्वात्मद्रुहो विश्वभिन्नैव लङ्घयेत् नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद् बुधः त्यक्त्वाहं ममता बुद्धिं परां गतिमवाप्नुयात् अनीर्ष्यन्तो ये मयोक्तमिदं शुभम् अनुतिष्ठन्ति ये सर्वे मुक्तास्ते किल कर्मभिः ये चैवनानुतिष्ठन्ति अशुभा कथचेतसः ईर्ष्यमाणान्महामूढान्नष्टां स्तान्विधि मेरिपून् तुल्यं प्रकृत्या कुरुदे कर्म यज्ञानवानपि अनुयादि च तामेव ग्रहस्तत्र मुधामदः कामश्चैव तथा क्रोधकानामर्थेषु जायते नैतयोर्वश्यतां व्यायादस्य विध्वंसकौयतः तो गुनो निजो धर्मः दान्यस्य धर्मदः निजे तस्मिन्मृदिश्रेयः परत्रभयतः परः वरेण्य उवाच पुमान्यत् कुरुते पापं स हि केन नियुज्यते अकाङ्क्षन्नपि हेरम्भप्रेरितः श्रीगजानन उवाच कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ नयन्तौ वश्यतां लोगान् विध्येतौ द्वेषिणौ वरौ आवृणोति यथा माया जगद्वाष्पो जलं यथा वर्षामेखो यथा भानं तद्वत्कामो किलांश्चरुट प्रतिपत्तिमदोज्ञानच्चादितं सततं द्विषा इच्छात्मकेन तरसा दुष्पूरेण च शुष्मिणा आश्रुध्य बुद्धि मनसि इन्द्रियाणि सतिष्ठति तैरेवाच्चादितप्रज्ञो ज्ञानिनं मोहयत्यसौ तस्मान्नियम्यतान्यादौ समनांसि नरोजयेद ज्ञानविज्ञानयोः शान्तिकरं पराण्याहुस्तेभ्यश्च परमं मनः ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मदः बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ॐ तत्सदिति श्रीमद्गणेशगीतासूप गर्भासु निषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिश्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे कर्मयोगो नाम द्विदियोऽध्यायः ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषद्धर्धगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे कर्मयोगो नाम द्वितीयोऽध्यायः ॐ